तथा ैनम् प्रेक्षमानो वृकोदरः राक्षसम् भुङ्क्त एवान्नम् पाण्डवः परवीरः अमर्षेण तु सम्पूर्णः कुन्तीपुत्रम् वृकोदरम् जघानपृष्ठे पाणिभ्यामुभाभ्याम् पृष्ठतः स्थितः तथा बलवता भीमः पाणिभ्याम् भृशमाहतः नैवावलोकयामास राक्षसम् भुङ्क्त एव वृक्षमादाय राक्षसः ताडयिष्यंस्तदा भीमम् पुनरभ्यद्रवद्बली ततो भीमः शनैर्भुक्त्वा तदन्नम् पुरुषर्षभः वार्युपस्पृश्य युधिमहाबलः क्षिप्तम् क्रुद्धेन तम् वृक्षम् प्रतिजग्राहवीर्यवान् सव्येन पाणिना भीमः प्रहसन्निव भारत ततः तस्मै भीमश्च पाण्डवः तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् घोररूपम् महाराज नरराक्षसराजयोः नाम विश्राव्यतुबकः समभिद्रुत्य पाण्डवम् भुजाभ्याम् परिजग्राह भीमसेनम् महाबलम् भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः विस्फुरन्तम् महाबाहुम् वि च कर्षबलाद् तयोर्वेगेन महता पृथिवी समकम्पत पादपांश्च महाकायांश्चूर्णयामासतुस्तदा हीयमानम् तु तद्रक्षः समीक्ष्य पुरुषादकम् निष्पिष्य भूमौ जानुभ्याम् समाजघ्ने